श्रीमद्भागवत्महापुराणं दशमस्कन्ध असद्वात्रिंशोऽध्यायः भगवान् का प्रकटहोकर गोपयो कु सान्त्वना दीना शेषोकुवाच इति गोप्य प्रगायन्त्य प्रलपन्त्यस्त्य चित्रधा ऋदुषुस्वरं राजन् कृष्णदर्शनलारसाः तासा महावीरभुच्छैरी स्म प्रीताम्बरसरसृग्विः साक्षान्मन्मथ मन्मथ तं विलोक्यागतं प्रेषं प्रत्युत्फुल्लदिशो बलाः उत्तरस्थुर्युगपदसर्वा तन्वप्राणमिवागतं काचित् कराम्बुजं सौरे जगृहेज्ज्वलिनाबुधा काचिद्दधार तद्बाहू मनसे चन्दनरूषितम् काचिद्दञ्जलिना गृह्णा तन्वेताम्बूलचर्वितम् एका तङ्घ्रे कमलं सन्तप्तास्तनयो रदात् एका भृकुटिमाबध्य प्रेमसंरभ्य विह्वला भ्रतीवैक्षत्कटाक्षेपैः सन्दष्टदशनच्छदा अपराणि मि स दृग्दिग्भ्यां जुषाणा तन्मुखां भुजम् आपीतमपि नाचिप्यसन्तस्तच्चरणं यथा तं काञ्चिन्नेत्ररन्ध्रेण हृदीकृत्य निमील्य च पुलकाङ्ग्योपगु गुह्यास्ते योगी वनन्दसम्प्लुदा सर्वास्ताकेशवालोकपरमोत्सवनिर्वृताः जुहुर्विरहजं तापं प्राज्ञं प्राप्य यथा जनाः ताभिर्विधूतशोकाभिर्भगवानच्युतोमृतः जरोचताधिकं तात पुरुषशक्तिभिर्यथा तासमादाय कालिन्द्या निर्विश्य पुलिनं विभो विगसत्कुन्द मदां मन्दारसुरभ्य निलषट्पदम् शरच्चन्द्रांशुसन्दोहध्वस्तदोषात्मशिवम् कृष्णाया हस्ततरलाचितकोमलवालुकम् तद्दर्शनाह्लादविधूतशद्रुयो नरो नथान्तं श्रुतयो यथाययो स्वैरुत्तरीयै कुचकुङ्कुमाङ्कितैरचे कृपन्नासनमात्मबन्धवे तद्रोपविष्टो भगवान् स ईश्वरो योगेश्वरान्तर्हृति कल्पितासनः चकासगोपी परिषद्गतोऽर्चित त्रैलोक्य लक्ष्म्यैकपदं वपुर्ददात् तभाजेत्वा तमनङ्गदीपरं सहासलीलेक्षणविभ्रमद्भ्रुवां संस्पर्शनेनां कृतां गृहस्तयो संस्तुत्यै सङ्कुपिता विभाषिरीम् गोप्यौ च होम् भजतोऽनुभजत्येक एक एतद्विपर्ययम् नो भयाश्च भजन्त्येक एतन्नो ब्रूहि साधुभो श्रीभगवानुवाच मिथो भजन्ति ये सख्य स्वार्थैकान्तोद्यमाहिते न तत्र सौहिदं धर्म स्वार्थार्थं तद्धि नान्यता भजन्त्य भजतो ये वै करुणा यथा धर्मो नृपुवादूत्र सौहृदं च सुमध्यमाः भजतोऽपि न वैके चे भजन्त्य भजत कुत आत्मा रामा शाप्तकामाय कृतज्ञा गुरुध्रुव नाहं तु सक्षो भजतोऽपि जन्तुन् भजान्यमीषामनुवृत्तिवृत्तये यथा धनो लब्धतनेऽपि नष्टे तच्चिन्तयान्यवृतो न वेद एवं मदर्थो झितलोकवेद स्वानां भिवो मय्यनुं वृद्धये बला मया परोक्षं भजता तिरोहितं मायूमासूयितुम् आर्हत तां तत्प्रियं प्रिया न पारियेऽहं निर्मद्यसंयुजां कृत्यं विविधायुषापि वा यामा भजन् दुर्जरगेहशङ्खराः संरस्त्य तदव प्रतियातु साधुना इति श्रीमद्भागुते महापुराणे पारंशां शीतायां दसंस्कन्धे पुरभाे रासक्रीडायां गोपी सान्त्वनं